अथ पञ्चचत्वारिंशोऽध्यायः वैशम्पायन वैशंपायनवाचा आदावेवाथ तं शक्रश्चित्रसेनं रहो पार्थस्य चक्षुरुर्वश्यां सक्तं विज्ञाय वासवः गन्धर्वराजगच्छाद्यप्रहितोप्सरसांवराम् ऊर्वशीं पुरुषव्याघ्रसोपातिष्ठतु फाल्गुनम् यथार्चितो गृहीतास्त्रो विद्यया मन्नियो गतः तथा त्वया विधातव्यम् स्त्रीषु सङ्गविशारदः एवमुक्तस्तथेत्युक्त्वा सोऽनुज्ञाम् प्राप्य वासवात् गन्धर्वराजोऽप्सरसमभ्यगादुर्वशीं वराम् ृष्ट्वा विदितो हृष्टः स्वागतेनार्चितस्तया सुखासीनः सुखासीनां स्मितपूर्वम् वचो ब्रवीत् विदितम् तेस्तु त्वत्प्रसादाभिनन्दिना यस्तु देवमनुष्येषु प्रख्यातः सहजैर्गुणैः श्रियाशीलेन व्रतेन च द्यातो बलवीर्येण सम्मतः प्रतिभानवान् वर्चस्वीतेजसायुक्तक्षमावान्वीतमत्सरः साङ्गोपनिषदान् वेदांश्चतुराख्यानपञ्चमान् योधीते गुरुशुश्रूषाम् मेधां चाष्टगुणाश्रयाम् ब्रह्मचर्येण दाक्ष्येण प्रसवैर्वयसापि च एको वैरक्षिता चैव त्रिदिवम् मघवानिव अकत्थनो मानयिता स्थूलक्ष्यः प्रियं वदः सत्यवाक्पूजितो वक्तारोपवाननहङ्कृतः भक्तानुकम्पीकान्तश्च प्रियश्च स्थिरसङ्गरः विदितस्तेऽर्जुनो वीरः सस्वर्गफलमाप्नुयात् त्वं तु शक्राभ्यनुज्ञाता तस्य पादान्तिकं व्रज तदेवम् कुरु कल्याणि प्रसन्नस्त्वाम् धनञ्जयः एवमुक्तास्मितम् कृत्वा सम्मानम् बहुमन्य प्रत्युवाचोर्वशी प्रीता चित्रसेनमनिन्दिता यस्त्वस्य कथितः सत्यो मम तम् श्रुत्वा व्यथयम् पुंसो वृणुयाम् किमतोऽर्जुनम् च तस्य चाहं गुणौघेन फाल्गुने जातमन्मथा गच्छं हि यथा काममागमिष्याम्यहं सुखम् इति श्रीमहाभारते वनपर्वणि इन्द्रलोकाभिगमनपर्वणि चित्रसेनोर्वशीसंवादे पञ्चचत्वारिंशोऽध्यायः